ुरेषाय विद्महे पक्षिराजाय धीमहि तन्नो शरभः प्रचोदयात् गो गेङ्गम्फट् प्राणग्रहासि प्राणग्रहासि हुम्फट् सर्वशत्रुसंहारणाय शरभसानुवाय पक्षिराजाय हुम् फट् स्वाहा ी शरभेश्वरोष्टचरणः पक्षी चतुर्बाहुकः पादाकृष्ण नृसिंह विग्रहधनः पादाग्निकोटिद्युतिः विश्वक्षोभनृसिंहधर्पशमनः ब्रह्मेन्द्रमुख्यै स्तुतः सद्यो रिपुघ्रास्तु नः